मुद्गलपुराणं खण्डं त्रि महोदरचरितम् अध्यायं तर्टि एय्ट् हरिवंशवर्णनम् श्रीगणेशाय नमः मुद्गल उवाच कार्तवीर्यस्य पुत्रास्तु शतं तत्र महारथाः पञ्चैव बलिनः धर्मात्मानो यशस्विनः जयध्वज शूरसेनो वृषभोधपुरुर्जितौ जयध्वजस्तत्र राजा मुख्योऽ भूत् स प्रजापदे जयध्वजस्य पुत्रो भूतालजङ्घः तस्य पुत्रशतं जज्ञे तालजङ्खा इति स्मृता तेषां ज्येष्ठो महाबाहुर्वीदिहोत्रो भवन्नृपः वृषप्रभृदयश्चान्ये यादवः पुण्यकर्मिणः पृषो वंशकरश्चासी तस्य पुत्रो भवन् मधुः मधो पुत्रशदं जज्ञे विष्णेर्ज्येष्ठः स वंशकृद विहोत्रसुतश्चैवानन्दनामा महायशाः दुर्जयस्तस्य पुत्रोऽभूत् सर्वशास्त्रविशारदः तस्य भार्या गुणैर्योक्ता पादिव्रत्यपरायणा वने सदुयौ राजोर्वंशीम् तत्र ददर्शः तस्यां सकृस्वयं कामी न सस्मारस्वकां गदे बहुतिधे काले ययौ कण्वेन बोधितः स्वगृहं पुनरेवासौ प्रायश्चित्तं चकार वै याजयामास तं कण्वः बभूवः तस्य पुत्रो बभूवापि सुप्रतीक इति श्रुतः सहस्रजित्कुलभवं सर्वं ते कथितं त्विदं यदुपुत्रस्य वंशं वै शृणु क्रोष्ठोः प्रजापते क्रोष्ठोरेको वृजिनवानिति पुत्रो भवच्छ्रुदः तस्य पुत्रो भवचा कुशेकुस्तुदो मद कुशेकोस्वत्पुत्रो नितिर रो बली पुत्रचिथ सूच्चश बिन्धुस्तोत दशलक्षसहस्राणी ते शु ज्येष्ठ पृथुश्रवा कुशनास्तस्य पुत्रो भूधर्म एव स कथ्यते तस्मादृचकनामा भूत् ततः पञ्चसुतामदाः तेषु वंशधरप्रोक्तो ज्यामको लोकविश्रुतः तस्माद्विदर्भपुत्रो भूद्विदर्भाच्च कुशक्रधौ लोमपादस्तृदीयस्तु बभ्रुस्तस्यात्मजो भवद कृतिस्तस्यात्मजः प्रोक्त उषिकस्तत्सुतो भवद उषिकात्पुत्रको जागश्चेदिश्चैद्यस्तदो भवद तस्य पुत्रो महाबाह्यप्रभावात् कौशिकस्मृतः अभूतस्य सुतो धीमान् सुमन्धुश्च ततोमलः अमलस्य सुतः प्रोक्तो निश्वेतश्च महाबलः तस्य महा दक्षा भवन्पुत्राः शतं चैव महाबलाः क्रधस्याप्यभवत्कुन्तिर्दृष्टिस्तस्याधनिर्वृतिः दशार्होऽस्य ततो व्योमस्तस्मज्जीमोदकस्ततः विकृदिस्तस्य पुत्रो भीमरथो भून्महाबलः तस्मान्नवरथो नाम बभूव महाबलः तस्य पुत्रो दशरथशकुनिस्तस्य चात्मजः तस्मात् करम्भिः सम्भूदो देवरादो भवत्तदः ईजे चाश्वमेधेन देवक्षत्रश्च तत्सुतः मधुस्तस्य सुधो तस्मात् कुरु पुत्रद्वयमभूतस्य सुत्रामा चानुरेव च पुरुहोत्रो भूदायुस्तस्य सुतोमतः आयुषः सात्वतो नाम तस्य सप्त सुदात्मदाः भजमानो भजिर्दिव्यो वृष्णिर्देववृद्धोऽम्धः महाभोजश्च विख्यादा यादवेषु प्रजापदे भजमानस्य भजम से जिंकण राजा पुत्रार्थे तप आचरत बभ्रुपुत्रो भगव्यश्लोको महायशास्त्रतवश्लोक यभू वध यशस तेजसाजोकेशु विराजि महाभोजकुलेद भोजस्ते वै प्रकर्ति वृश्सुम पुत्रस् युद्ध अनमिशिनीम भूदनिद विक्यादव सत्रजिच प्रसैनश्च विख्याद निम्नजौ सुतौ सत्र जिर्यराध्य मणिलेष्यमत शिनेरथ सत्यक सत्य संपन्न सत्यनामा महायश सात्यकिर्युयुधानः स जयस्तस्या भवत्सुधः कुनिश्चाधसुदो धीमांस्तस्य पुत्रो युगन्धरः अनमित्रसुदो योन्यो वृष्णिशस्त्रविशारदः स्वफल्कश्च सुधो वृष्णेः परश्चित्र रथोऽभवद स्वफल्कः काशिराजस्य सुदाम् भार्यामविन्ददा तस्यामजन यत्पुत्रमक्रूरं साधु सम्मतम् आसङ्गसारमेयाद्य अन्ये च द्वादशात्मजाः अक्रूरस्या भवत्पुत्रो देववानुपदेवकः अभुचित्ररधपुत्रः पृथुश्च प्रधुरेवहि हि अश्वग्रीवः सुबाहुश्च सुधास् सुधास्मृता अधान्तको महाबाहुर्लभे वै चतुरः सुदान् कुकुरं भजमानं च शुचिं कम्बलबर्हिणम् कुकरस्य सुदो वखनेस्तु तनयो भवत कपोतरो मा भो दक्ष पुत्रो भवदनुस्ततः सोऽ भवत्तुम्बरोर्मित्रं सुधस्तस्यां धकः स्मृतः अन्धकादभवत्पुत्रस्तेजो युक्तश्च दुन्दुभिः गोवर्धनमासाद्य तदाप विपुलं तपः ब्रह्मा तस्मै ददौ चैव वरम् तन्मनसीप्सितम् वंशस्ते चाक्षयो भावी कीर्तिज्ञानादिकं यशः सुरैः सदाधिकम् मैत्र्यम् कामरूपित्वमेव च हरिद्योदःसुतस्तस्य तेजोयुक्तश्च दुन्दुभेः पुनर्वसुसुतस्तस्याहु ते कस्तस्य सुतस्मृतः आहु दुग्रसेनश्च देवकश्च प्रजापदे देवकस्य सुधा वीरा देवसन्निभाः देववानुपदेवश्च वसुदेवो देववर्धनः तेषां स्वसारसप्तास्सन् वसुदेवायथा ददौ मृतदेवा तथा चैवोपदेवा देवसाक्षिता श्रीदेवा शान्तिदेवा च सहदेवा च सुव्रता देवी वसुदेवाय दद्वा प्रजापद उग्रसन सेख्या महाबला महायशा अभूतपुत्रो भजमानादुरध तर शूरशिस्त भोजश्च तत्सु कृतिको दो देहबाहुस्तदशतधनुस्ततः कृतवर्मा तदो देवमीढो तत् शूरकस्तदः वसुदेवादयो वसुदेवान् महातेजा वसुदेवो जगद्गुरुः देवकीपुत्रतां यादो देवै संप्रार्थिदो हरिः भूमिभारावताराय साधूनां पालनाय च रोहिणी च महाभागा वसुदेवादजिजनदसङ्घर्षणं तदो ज्येष्ठं शेषांशं च हलायुधम् उमादेधराजादा योगनिद्रा च कौशिकी नियोगाद्वासुदेवस्य यशोदात्तनया भवद ये चान्ये वासुदेवस्य वासुदेवाग्रजास्सुदाः जखानकंसप्रागेव तान् सर्वान् सूदिमात्रदः सुषेणश्च तदो दायि भद्रसेनो महाबलः रुदुसम्मर्दनो भद्रकीर्तिमानिधि सम्निताः हदेष्वेदेषु सर्वेषु रोहिणी वसुदेवतः असूतलोकनाथं तं बलभद्रं हलायुधम् जादे रामे च देवानामादिमात्मानमच्युतम् असूददेव हि कृष्णं श्रीवत्साङ्गितवक्षसम् ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषद्दिश्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते हरिवंशवर्णनं नाम अष्टत्रिंशोऽध्यायः ओम्